हरिः ओलितामहात्रिपुरसुन्दर्यै नमः अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादिवाग्देवताऋषयः अनुष्टुच्छन्दः श्रीललितापरमेश्वरी देवता श्रीमद्वाग्भवकूटेति बीजम् मध्यकूटेति शक्तिः शक्तिकूटेति कीलकम् मूलप्रकृतिरिति ध्यानम् श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलव्याप्त्यर्थे श्रीलितासहस्रनामपारायणजपे विनियोगः ध्यानम् सिन्धोरारुणविग्रहान्त्रिनयनां माणिक्यमौलि स्फुरत् तारानायकशेखरां स्मितमुखी मापीनवक्षोरुहा पाणिभ्यामलिपूर्णरत्नचषकम् रत्पलं बिभ्रती सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिका ध्यायेत् पद्मासनस्थाम् विकसित वदनाम् पद्मपत्रायताक्षी हेमाभाम् पीतचैलाङ्करकलित सलद्धेम मपद्मां वराङ्गी सर्वालङ्कारयुक्ताम् सततमभयदाम् भक्त नम्राम् भवानि ्याम् शान्तमूर्तिम् सकलसुरनुता सर्वसम्पत्प्रदात्री श्री माता श्रीमहाराज्ञी श्रीमत् सिंहासनेश्वरी चिदग्निकुण्ड सम्भूता देवकार्य चतुर्बाहु समन्विता राजस्वरूप पाषाढ्या क्रोधाकाराङ्कुशोज्ज्वल दण्डा पञ्च तन्मात्र सायक चम्पकाशोकपुन्नागसौगन्धिकलसत्कच कुरुविन्दमलिश्रेणीकनत्कोटीरमण्डिता अष्टमीचन्द्र विभ्राज दलिकस्तलशोभिता मुखचन्द्र कलङ्काभमृगनाभिविशेषका वदन कदम्ब मञ्जरी क्लुप्तकरणपूर मनोहर ताटङ्क युगली भूत तपनोडुमण्डल पद्मराकशिलादर्श परिभावि कपो लभूः नव विद्रुम बिम्ब श्री न्यक्कारिरदनच्छद शुद्ध विद्याङ्कुराकार द्विज मन्नस्मित प्रभा पूरमज्जत् कामेश मानस अनाकलितसादृश्यच्चुबुक श्री विराजिता कामेश बद्धमाङ्गल्य सूत्रशोभितकन्धरा तन भारदलन् मध्य पट्टबन्धवलित्रया अरुणारुण कौसुम्भाव रशनादामभूषित कामेश ज्ञातसौभाग्यमार्गवोरुद्वयान्विता माणिक्यमकुटाकारजानुद्वय विराजिता इन्द्रगोप पदद्वयप्रभाजा जाल पराकृत सरोरुहा शिञ्जान मणिमञ्जीर मण्डित श्रीपदाम्बुजा मराली मन्दगमना महालावण्यशेव सर्वारुणानवद्याङ्गी सर्वाभरणभूषिता शिवकामेश्वराङ्कस्ता शिवा स्वाधीनवल्लभा सुमेरु मध्यशृङ्गस्ता श्रीमन्नकर नायका पञ्चब्रह्मासनस्थिता महापद्मातवी संस्था कदम्बवनवासिनी सुधासागरमध्यस्था कामाक्षी कामदायिनी देवर्षिगणसङ्घातस्तूयमानात्मवै भव भण्डासुरवधोद्युक्ता शक्तिसेना समन्विता सम्पत्करी समारूढ सिन्धुरौ रज सेविता अश्वरूढाधीष्टिताश्वकोटिकोटिभिरावृता किरिचक्ररतारूढदण्डनाथ पुरस्कृता ज्वाला मालिनिका चित्तवन्नि प्राकारमध्यगा बण्डसैन्यवदोद्युक्ता शक्तिविक्रम हर्षिता नित्या पराक्रमः पोपा निरीक्षण समत्सुका बण्डपुत्रवदोद्युक्ता बाला विक्रम नन्दिता मन्त्रिण्यम्बा विरचित विषङ्गवद दोषिता विशुक्रप्राणहरण वाराही वीरनन्दिता कामेश्वर मुखालोक कल्पित श्रीगणेश्वर महागणेश निर्भिन्न विघ्नयम् प्रहर्षिता भण्डासुरेन्द्र निर्मुक्ता शस्त्र प्रत्यस्त्र वर्षिणी <laughs> कराङ्गुलिनकोत्पन्न नारायण दशाकृतिः महापाशुपतास्त्राग्नी निर्दग्धासुर सैनिका कामेश्वरास्त्र निर्दग्धा स भण्डासुर शून्यका ब्रह्मोपेन्द्र महेन्द्रादि देव संस्तुत वैभव हरणेत्राग्नि सन्दग्धा काम सञ्जीवनौषधिः श्रीमद्वाग्भव कूटैक अकुला समयान्तस्ता समयाचार तत्परा मूलाधारैकनिलया ब्रह्म ग्रन्थि विभेदिनी मणिपुरान्तरुदिता विष्णुग्रन्थि विभेदिनी आज्ञाचक्रान्तरालस्ता रुद्रग्रन्थि विभेदिनी सहस्राराम्बुचारूढा सुदासाराभिवर्षिणि तटिल्लता समरुचिः षट्चक्रोपरि संस्थिता महाशक्तिः कुण्डलिनी विसतन्तु भवानी भावनागम्या भवारण्यकुठारिका भद्रप्रिया भद्रमूर्तिः भक्तसौभाग्यदायिनी भक्तिप्रिया भक्तिगम्या भक्तिभष्या भयापहा शाम्भवी शारदा राध्या शर्वाणि शर्मदायिनी शाङ्करी श्रीकरी साध्वी शरच्चन्द्रणि बाणना शातोदरी शान्तिमती निराधारा निरञ्जन निर्लेपा निर्मला नित्या निराकारा निराकुला निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा निष्कारणा निष्कळङ्का निरुपाधिर्निरीश्वरा निरागारागमथनि निर्मदा मदनाशिनि निश्चिन्ता निरहङ्कारा निर्मोहामोहनाशिनि निर्ममा ममताहन्त्री निष्पापापनाशिनि निष्क्रोधाक्रोधशमनि निर्लोभा लोभनाशिनि निःसंशया संशयघ्नि निर्भवा भवनाशिनि निर्विकल्पा निराभाधा निर्वेदा भेदनाशिनी निर्नाशा मृत्युमथनि निष्क्रिया निष्परिग्रहा निस्तुला नीलचिकुरा निरपाया निरत्यया दुर्लभा दुर्गमा दुर्गा दुःखहन्त्रे सुखप्रदा दुष्टदुरा दुराचार शमनी दोषवर्जिता सर्वज्ञा सान्द्रकरुणः समानाधिकवर्जिता सर्वशक्तिमयी सर्वमङ्गलः सद्गतिप्रदा सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी माहेश्वरी महादेवी महालक्ष्मीर्मप्रिया महारूपा महापूज्या महापातकनाशिनी महामाया महासत्त्वा महाशक्तिर्महारतिः महाभोगा महेश्वर्या महावीर्या महाबला महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी महातन्त्रा महामन्त्रा महायन्त्रा महासना महायागक्रमाराध्या महाभैरव पूजिता महेश्वरा महाकल्पा महाताण्डव साक्षिणी महाकामेश महिषी महात्रिपुर सुन्दरी चतुष्षष्ट्युपचाराढ्या चतुष्षष्टि कलामही महाचतुष्षष्टि कोटि योगिनी गणसेविता मनोविद्या चन्द्र विद्या चन्द्र मण्डल मध्यका चारुरूपा चारुहासा चारु चन्द्र कलाधरा चराचर जगन्नाथा चक्रराजनिकेतना पार्वती पद्मनयना पद्मरागसमप्रभा पञ्चप्रेतासनासीना पञ्च ब्रह्मस्वरूपिणी चिन्मही परमानन्दा विज्ञानघनरूपिणी ध्यानध्यातृध्येयरूपा धर्मा धर्म विवर्जिता विश्वरूपा जागरिणी सुपन्दी तैजसात्मिका सुप्ता प्राज्ञात्मिका तुरीया सर्वावस्थाभिवर्जिता ब्रह्मरूपा गोप् गोविन्दरूपिणी संहारिणे रुद्ररूपा तिरोधानकरीश्वरे सदा शिवानुग्रहदा पञ्चकृत्य परायणा भानुमण्डलमध्यस्था भैरवी भगमालिनी पद्मासना भगवती पद्मनाभसहोदरी उन्मेष निमिषोत्पन्न विपन्न भुवनावले सहस्रशीर्षवदना सास्त्रा सहस्राक्षि सहस्रपाद निजाज्ञा रूप निगमा पुण्या पुण्यफलप्रदा श्रुतिसीमन्त सिन्दूरे कृतपादाब्जधूलिका सकलागमसन्दोहा शुक्तिसम्पुट मौक्तिका पुरुषार्तप्रदा पूर्णा भोगिनी भुवनेश्वरी अम्बिका नाधिनिदना हरिब्रह्मेन्द्र सेविता नारायणी नादरूपामरूप ना विवर्जिता राजराजाच्चिदा राज्ञी रम्या राजीवलोचना रञ्जनी रमणीरस्या रणत्यङ्कि निमेखला रमा राकेन्दुवदना रतिरूपा रतिप्रिया रक्षाकरी राक्षसघ्नी रामा रमण लम्पटा काम्या कामकलारूपा कदम्ब कुसुमप्रिया कल्याणी जगति कन्दा करुणारससागर कलावती कलालापा कान्ता कादम्बरी प्रिया वरदा वामनयना वारुणी मदविह्वला विश्वाधिका वेदवेद्या विन्ध्या चलनिवासिनी विधात्रीवेद जननि विष्णुमाया विलासिनी क्षेत्रस्वरूपा क्षेत्रे श्री क्षेत्र क्षेत्रज्ञपालिनी क्षयवृद्धिर्विनिर्मुक्ता क्षेत्रपाल समर्चिता विजया विमला वन्द्या वन्दारुजन वत्सला वाग्वादिनी वामकेशी वन्निमण्डलवासिनि भक्तिमत्कल्पलतिका पशुपाश विमोचनी संवृता तापत्रयाग्निसन्तप्तः समाह्लादनचन्द्रिका तरुणी तापसाराध्यातनो मध्यातमोपहा चित्तिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी स्वात्मानन्दरभिभूत ब्रह्मद्यानन्द सन्ततिः परा प्रत्यक्षतीरूपा पश्यन्ती परदेवता मध्यमा कामपूजिता शृङ्गार रस सम्पूर्णा जया जालन्धर स्थिता कोड्याण पीठ निलया बिन्दुमण्डलवासिनी रहो याग क्रमाराध्या रहस्तर्पण तर्पिता सद्यप्रसादिनी विश्वसाक्षिणी साक्षि वर्जिता षडङ्ग देवता युक्ता षाड्गुण्य परिपूरिता नित्यक्लिन्ना निरुपमा निवान सुखदायिनी नित्य षोडशिकारूपा श्रीकण्ठार्ध प्रभावति प्रभारूपा प्रसिद्धा परमेश्वरी मौलप्रकृतिरव्यक्ता व्यक्ता व्यक्तस्वरूपिणी व्यापिनी विविधाकारा विद्या विद्या स्वरूपिणी महाकामेश नयन कुमुदाह्लादकौमुदी भक्ता हार्दतमो भेदभानुमद्भानुसन्ततिः शिवदूति शिवाराध्या शिवमूर्ति शिवङ्करी शिवप्रिया शिवपराशिष्टेष्टाशिष्टपूजिता अप्रमेया सुप्रकाशा मनोवाचामगोचरा च्चिच्छक्तिश्चेतनारूपा जडश्चक्तिर्जडात्मिका गायत्री व्याहृतिः सन्ध्या द्विजवृन्द निषेविता तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता निस्सीममहिमा नित्ययौवनामदशालिनी मदघोरिणित रक्ताक्षी मदपाटल गण्डभूः कुसुमप्रिया कुशला कोमलाकारा कुरुकुल्ला कुलकुण्डालया कौलमार्ग तत्पर सेविता <laughs> कुमारगणनाथाम्बा तुष्टिपुष्टिर्मतिर्दृतिः शान्तिस्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी तेजोवती त्रिनयना लोलाक्षि कामरूपिणी मालिनी हंसिनी माता मलया सलवासिनी सुमुखी नलिनी सुब्रूः शोभना सुरनायिका कालकण्ठी कान्तिमती क्षोभिनी सूक्ष्मरूपिणी वज्रेश्वरी वाम देवी वयोऽवस्था विवर्जिता सिद्धेश्वरी सिद्धविद्या धष्टोज्ज्वलाक्षमालाधिधरा रुधिरहंसिता कालरात्र्यादिशक्त्यौघावृता सिग्दौ धनप्रिया महावीरेन्द्र वरदा राकिण्यम्बा स्वरूपिणी मणिपूराब् च निलया वदनत्रयसंयुता वज्रादिकायुधोपेता डामर्याधिभिरावृता रक्तवर्णा मांसनिष्ठा गुडाह्न प्रीतमानसा समस्तभक्तसुगदा लाकिण्यम्बा स्वरूपिणी स्वाधीष्टानाम्बु जगता चतुर्भक्त्र मनोहरा शूलाद्यायुध सम्पन्ना पीतवर्णाति गर्वित मेधो निष्ठा मधुप्रेता बन्धिन्यादि समन्विता दध्यन्नासक्त हृदया काकिनी रूपधारिणी मूलाधाराम्बुजारूढा पञ्चभक्त्रास्ति संस्थिता अङ्कुशादिप्रहरण वरदादि मुद्गौदनासक्तचित्ता सा किन्यम्बा स्वरूपिणी आज्ञा चक्राब्दनिलया शुक्लवर्णा षडानना मज्जासंस्ता हंसवति मुख्यशक्तिसमन्विता हरिद्रानैकरसिका घाकिनी रूपधारिणी सहस्रदलपद्मस्ता सर्ववर्णोपशोभिता सर्वायुधरा शुक्लसंस्थिता सर्वतोमुखी सर्वौदना प्रेतचित्ता या श्रुतिस्मृतिरनुत्तमा पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना कुलोमजाचिता बन्धमोचनी बन्धुरालका विमर्शरूपिणी विद्या विहदाधिजगत्प्रसूः सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणि अग्रगण्या चिन्त्यरूपा कलिगम् मचनाजिनी कात्यायिनी कालहन्त्री दादिनी कुसुमप्रभा मृगाक्षी मुख्या मृडानी मित्ररूपिणी नित्यतृप्ता भक्तनिधिः नियन्ति निखिलेश्वरी मैत्र्यादिवासना पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी मा ध्वीपानालसा मत्ता मातृकावर्णरूपिणि महा महा महासाम्राज्यशालिनी आत्मविद्या महाविद्या श्रीविद्या कामसेविता श्रीषोडशाक्षरी विद्या, विद्या, विद्या काम त्रिकूटा कामकूटिका कटाक्ष किङ्करीभूतकमला कूटसेविता शिरस्थिता चन्द्रनिभा फालस्तेन्द्रद्धनुप्रभा हृदयस्त्रारविप्रत्या त्रिकोणान्तर दीपिका दाक्षाही दैत्यहं त्री दक्षयज्ञविनाशिनी दरान्दोलित दीर्घाक्षी दरहासोज्ज्वलुन्मुखी गुरुमूर्तिर्गुणनिधिः गोमाता गुहजन्म भूः देवेशी दण्डनीतिस्तादहराकाशरूपिणी प्रतिपन्मुखराकान्ता तिथिमण्डलपूजिता कलात्मिका कलानाथा काव्यलापविनोदिनी स चामरमा वाणी सव्यदक्षिणसेविता आदिशक्तिरमे आत्मा परमापावना कृतिः अनेककोटिब्रह्माण्ड जननी दिव्यविग्रहा क्लीङ्कारि केवला गुह्य कैवल्यपददायिनी त्रिपुरा त्रिगद्वन्द्या त्रिमूर्ति त्रिदशेश्वरी त्र्यक्षरी उमाशैलेन्द्रतनया गौरी गन्धर्वसेविता विश्वगर्भा स्वर्णगर्भा वरदा वागदीश्वरी ध्यानगम्या परिच्छेद्या ज्ञानदा ज्ञानविग्रहा सर्ववेदान्त संवेद्या लोपामुद्रार्चिता लीला अदृश्यादृश्यरहिता विज्ञा त्रिवेद्यवर्जिता योगिनी योगदा योग्या योगानन्दा युगन्धरा इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी सर्वाधारा सुप्रतिष्ठा सदसुद्रूपदारिणी अष्टमूर्तिरजा जैत्रिलोकयात्राविधायिनी एकाकिनी भूमरूपा निर्द्वैताद्वैतवर्जिता अन्नता वसुधा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी बृहति ब्राह्मिणी ब्राह्मी ब्रह्मानन्दाऽभिप्रिया भाषारूपा बृहत्सेना भावा भाव विभजिता शोभना सुलभा गतिः राजराजेश्वरी राज्यदायिनी राज्यवल्लभा राजकृपा राजपीठ निवेशित साम्राज्यदायिनी सत्यसन्धा सागर मेखला सच्चिदानन्दरूपिणी देशकाला परिच्छिन्ना सर्वगा सर्वमोहिनी सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी सर्वोपाधिविनिर्मुक्ता सदा शिव पतिव्रता सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी कुलोत्तीर्णा भगाराध्या माया मधुमतीमही गुरुप्रिया स्वतन्त्रा सर्वतन्त्रे श्री सनकादिसमाराध्या शिवज्ञानप्रदायिनी चित्कलानन्द कलिका प्रेमरूपा प्रियङ्करी नामपारायण प्रीता नन्दि मिथ्या जगदधिष्टाना मुक्तिदा मुक्तिरूपिणी लास्यप्रियालय करी भवदा वसुधा पापारण्यदवानला दौर्भाग्यतूला वातूला जराध्वान्तर विप्रभा बाध्यादिचन्द्रिका भक्त चित्तकेकि घना घना महेश्वरी महाकाली महाग्रासा महाशना अपर्णा चण्डिका चण्डमुण्डा सुरनिशोदनी क्षराक्षरात्मिका सर्वलोकेशि विश्वधारिणी त्रिवर्गदा त्रिसुभगा त्र्यम्बका त्रिगुणात्मिका स्वर्गापवर्गदा शुद्धा जपा पुष्पनिभाकृतिः ओ जो वते द्वितिधरा प्रज्ञरूपा व्रियव्रता दुराराध्या दुरादर्शा पाटली कुसुमप्रिया महती मेनुलया मन्दार कुसुमप्रिया वीराराध्या विराड्रूपा विरजा विश्वतोमुखी प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी मार्ताण्डभैरवाराध्या मन्त्रिण्यन्यस्तराज्य धूः त्रिपुरेशी जयत्सेनानिस्त्रैगुण्या परा परा सत्यज्ञानानन्दरूपा सामरस्य परायणा कपर्दिनी कला माला कामधुक् कामरूपिणी कलानिधि काव्यकला रसज्ञा रसशेव पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा परञ्ज्योति परम् धामा परमाणुः परात्परा पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी मूर्ता मूर्ता नित्यतृप्ता मुनिमानसहंसिका सत्यव्रता सत्यरूपा सर्वन्तर्यामिनी सती ब्रह्माणि ब्रह्मजननि बहुरूपा बुधा अर्चिता प्राणेश्वरी प्राणधात्री पञ्चाशत्पीठरूपिणी विशृङ्खला विविक्तस्ता मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी भावज्ञा भवरो अघ्नी भव चक्रप्रवर्तिनी छन्दः सारा शास्त्रसारा मन्त्रसारा तलोदरी उदारकीर्तिरुद्धा मा वै भव वर्णरूपिणी कलात्मिका गम्भीरा गगनान्तस्ता गर्भिता गानलोलुपा कल्पना कार्यकारण निर्मुक्ता कामकेलितरङ्गिता कनत्कनकताटङ्का लीला विग्रहधारिणी अजाक्षय निर्मुक्ता मुद्रा चिप्रसादिनी अन्तर्मुख समाराध्या बहिर्मुख सुदुर्लभा त्रयी त्रिवर्गनिलया त्रिस्ता त्रिपुरमालिनी निरामाया निरालम्बा स्वात्मा राम सुधा श्रुतिः संसार पङ्क निर्मग्ना समुद्धरण यज्ञप्रिया यज्ञकर्त्री यजमान धर्माधारा धनाध्यक्षा धन धान्यविवर्धिनि विप्रिया विप्ररूपा विश्वभ्रमणकारिणि विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणि अयो निर्यो निनिलया कूटस्थाकुलरूपिणि वीरा नैष्कर्म्यानादरूपिणि विज्ञानकलना कल्या विदग्गाभिन्दवासिनि तत्त्वाधिका तत्त्वमयी सामगानप्रिया सौम्या सदाशिवकुटुम्बिनि सौव्यापसव्यमार्गस्ता सर्वा पत्नि स्वस्था स्वभाव मधुरा धीराधीर समर्चिता चैतन्यार्घ्य समाराध्य तरुणादित्यपाटल दक्षिणा दरस्मे रमुकाम्बुजा कौलिनी केवला नघ्या स्तोत्रप्रिया स्तुतिमतीषुति मनस्विनी मानवती महेशी मङ्गलाकृतिः विश्वमाता जगद्धात्रिविशालाक्षी विरागिणि प्रगल्भा परमो दारा परमोदा मनोमयी यो मकेशी विमानस्था वज्रिणि वामकेश्वरी पञ्चयज्ञप्रिया पञ्चप्रे च मञ्चादिशायिनी पञ्चमी पञ्चभूतेशि पञ्च सङ्ख्योपचारिणि शाश्वती शाश्वतैश्वरीया शर्मदा शम्भुमोहिनी धरा धर सुता धन्या धर्मिणि धर्मवर्धिनी लोकातीता गुणातीता सर्वातीता समात्मिका बन्धूककुसुमप्रख्या बालालीना विनोदिनी सुमङ्गले सुखकरी सुवेशाढ्या सुवासिनी सुवासिन्यचन प्रेता शोभना शुद्धमानसा बिन्दुतर्पण सन्तुष्टा पूर्वजा त्रिपुराम्बिका दशमुद्रा समाराध्या त्रिपुरा शैवशङ्करी ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणि योनिमुद्रा त्रिकण्डेशी त्रिकोणाम्बा त्रिकोणगा अनघाद्विचारित्रा वाञ्छितार्थप्रदायिनी अभ्यासातिशयज्ञाता षडध्वातीपरूपिणि अव्याजकरुणा मूर्तिरज्ञानध्वान्तदीपिका आबालकोपविदिता सर्वानुल्लङ्घ्य शासना श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका नाम्नां साहस्रकं जगुः रिः वो जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः स नः परिषदति दुर्गाणि विश्वा न वेव सिन्धुम् दुरितात्यग्निः तपसा ज्वलन्ने मयि कर्मफलेषु जुष्टा दुर्गाम् देवे गुम् शरणमहम् प्रपद्ये सुतरसितरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वाश्च पृथ्वे बहुरा न उर्वे भवातोकायतनयायशयोः विश्वानिनो दुर्गः जातवेदस् सिन्धुर्ननावा दुरितातिपर्शि अग्ने अत्रिवन्मनसागृणालोऽस्माकम् बोध्यपिता तनूनाम् प्रसनाजिदगम् सहमानमुग्रमग्निगम् हुवेम परमात्सहस्तात् स नः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिभुरात्यग्निः रत्नोषि कमेड्यो अध्वरेषु सनात्यहोता नौ स्वाञ्जाद्य तनुवम् पिप्रय स्वास्मभ्यम् च सौभगमायजस्व गो विदुष्टमयुजो निषिक्तन्तवेन्द्र विष्णोरनुसञ्जरेम नाकस्य पृष्टमभि संवसानो वैष्णवीन्दोकैषपादयन्दाम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे